अथ सप्ताशीतितमोऽध्यायः वैशंपायन उवाच स्वर्गतः स तु राजेन्द्रो निवसन् देववेश्मनि पूजितस्त्रिदशैः साध्यैः मरुद्भिर्वसुभिस्तथा देवलोकम् ब्रह्मलोकम् ययाति शक्रमागमत् क्वन्ते तत्र शक्रेण स पृष्ठः पृथिवीपतिः शक्र उवाच यदा स पूरुस्तव रूपेण राजन् भूमौ तदा स राज्यम् तस्मै त्वया किमुक्तः कथयेह सत्यम् ययातिरुवाच गङ्गायमुनयोर्मध्ये कृत्स्नोऽयम् विषयस्तव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 दुर्जनः सुजनम् द्वेष्टि दुर्बलो बलवत्तरम् रूपवन्तमरूपी च निर्धनः अकर्मी कर्मिणम् द्वेष्टि धार्मिकम् च न धार्मिकः निर्गुणो गुणवन्तम् च शक्रैतत्कलिलक्षणम् अक्रोधनः क्रोधनेभ्यो विशिष्टः तथातितिक्षुरतितिक्षोर्विशिष्टः अमानुषेभ्योऽ मानुषाश्च प्रधानाः विद्वांस्तथैवाभिदुषः प्रधानः आकृष्यमानो नाक्रोशेत् मन्युरेवति तिक्षतः आक्रोष्टारम् निर्दहति सुकृतम् चास्य विन्दति नारुन्तुदस्यान्नृशम् सवादि न हीनतः ययास्य वाचा पर उद्विजेत न तां वदे दुषतीम् पापलोक्याम् अरुन्तुदम् वाक्कण्टकैर्वितुदन्तम् मनुष्यान् विद्यादलक्ष्मीकतमम् जनानाम् मुखे निबद्धाम् निरृतुम् वहन्तम् सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् सदा सतामतिवादाम् स्तिक्षेत् स तम् वृत्तम् चादतीतार्यवृत्तः वाक्सायका वदनान्न्यष्पतन्ति परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु न हीदृशम् संवनम् त्रिषु विद्यते दया मैत्री च भूतेषु दानम् च मधुरा च वाक् तस्मात् सान्त्वम् सदा वाच्यम् न वाच्यम् परुषम् क्वचित् पूज्यान् कदाचन इति श्रीमहाभारते आदिपर्वणि संभवपर्वि उत्तर याते सशीति